शिव गीता नवमोऽध्यायः श्रीभगवानुवाच देहस्वरूपम् वक्ष्यामि शृणुष्व अवहितो नृप मत्तो हि जायते विश्वम् मयैव एतत्प्रधार्यते मय्येव इदमधिष्ठाने पीयते शुक्तिरौप्यवत् अहम् तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः असङ्गो निरहङ्कारः शुद्धम् ब्रह्मसनातनम् अनादि अविद्यायुक्तः सन् जगत्कारणताम् व्रजे अनिर्वाच्या महाविद्या त्रिगुणापरिणामिनी रजः सत्त्वम् तमःति त्रिगुणाः परिकीर्तिताः सत्त्वम् शुक्लम् समादिष्टम् सुखज्ञानास्पदम् नृणाम् दुःखास्पदम् रक्तवर्णम् चञ्चलम् च रजोमतम् तमकृष्टम् जडम् प्रोक्तम् उदासीनम् सुखादिषु अतो मम समायोगात् शक्तिः सा त्रिगुणात्मिका अदिष्टाणे तु मय्येव भजते विश्वरूपता चुक्तौ रजतवत्प्रज्जौ उजङ्गो यद्वदेव तु आकाशादीनि जायन्ते मत्तो भूतानि मायया तैरब्धमिदम् विश्वं देहोऽयम् पाञ्चभौतिकः पितृभ्यामशितादन्नात् षड्कोशम् जायते नायवो स्नायवो अस्ती निमज्जा च जायन्ते पितृतस्तता त्वम् मां च शोणितमिति मातृतश्च षड्विदास्तस्य मातृजाः पितृजास्तता रजसा आत्मजाः सत्त्व सम्भूताः स्वात्मजास्तता मृदवहा शोणितम् मेदो मज्जाप्लीहा जकृद्गुदम् कृन्नाबीत्येवमाद्यास्तु भावा मातृभवामताः लोमक लोमकसस्नायु शिरा धमनयोनकाः दशनाः शुक्रमित्याद्याः दृसमुद्भवाः शरीर उपचितिर्वर्णो वृद्धिस्तृप्तिर्बलम् स्थितिः अलोलुपत्वम् उत्साह इत्यादिरसजम् विदुः इच्छाद्वेषः सुखम् दुःखम् धर्माधर्मौ च भावना प्रयत्नो ज्ञानमायुच्य इन्द्रियाणीत्येवमात्मजाः यानीन्द्रियाणि श्रवणम् स्पर्शनम् दर्शनम् तथा रसनम् ग्राणमित्याहुः पञ्चदेषाम् तु गोचराः शब्दस्पर्शस्तथा रूपम् रसो गन्ध इति क्रमात् गुदोपस्तानी। आहुः कर्मेन्द्रियाणि वचन आदानगमनविसर्गरतयः क्रमात् कर्मेन्द्रियाणाम् जानीयान् मनश्चैव उभयात्मकम् क्रियास्तेषाम् मनोबुद्धिः अहङ्कारस्ततः परम् अन्तःकरणमित्याहुः चित्तम् चेति सुखम् दुःखम् च विषयौ विज्ञेयौ मनसः क्रियाः स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका अहम् अमेत्यहङ्कारः चित्तम् चेतयते यतः सत्त्वाक्यमन्तःकरणम् पुण वेदास्त्रिधा मतम् रजस्तम आस्तिक्य गुणा मति प्रभतो मता रजसो राजसा राजवा कामक्रोधमदादय निद्रा आलस्य आलसी प्रमादा वंचनाद्यास्तुतामस प्रसन्न इन्द्रियता आरोग्य अणालस्याद्यास्तु सत्वजाः देहो मात्रात्मकः तस्मात् आदत्ते तद्गुणानिमान् शब्दश्रोत्रम् मुकरता वैचित्र्यम् सूक्ष्मता धृतिः फलम् गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् उक्षेपणम् अपक्षेप आकुञ्चने गमनम् तथा प्रसारणम् इतीमानि पञ्चकर्माणि रुक्षत प्राणापानौ तथा समान उदान सञ्ज्ञकान् नागः कूर्मश्च कृकलो देवदत्तो दत्तो धनञ्जयः अशैता वायुविकृती तथा गृह्णाति लाघवम् तेषाम् मुख्यतरप्राणो नाबेहे कण्टादवस्थितः चरत्यसो नासिकेयो नाभौ कृदयपङ्कजे शब्दोच्चारणनिःश्वासो उच्छ्वासादेरपि कारणम् अपानस्तु गुदे मेत्रे इटिजङ्गोदरेष्वपि नाभिकण्ठे वञ्षणयोर् ऊरुजानुषु तिष्ठति तस्य मूत्रपुरीषादि विसर्गः कर्म कीर्तितम् यानो अच्चिश्रोत्रगुल्पेषु जिह्वाग्राणेषु तिष्ठति प्राणायामदृतित्याग्रहणाद्यस्य कर्म च समानोऽव्याप्यनिखिलम् शरीरम् पन्निना सह द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु सञ्चरन् भुक्तपीतरसान् सम्यक् आनयन् देहपुष्टिकृते उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु कर्मास्य देहोन्नयन उत्क्रमणादिप्रकीर्तितम् युगादिदातून् आश्रित्य पञ्च नागादयः स्थिता उद्गारादिनिमेषादि हृत्पिपासादिकम् क्रमा तन्द्रीप्रभृतिशोकादि तेषाम् कर्म प्रकीर्तितम् अग्नेस्तु रोचकम् रूपम् दीप्तम् पाकम् प्रकाशताम् अमर्षतीक्ष्णसूक्ष्माणाम् ओजस्तेजश्च शूरताम् मेधाविताम् तदा दत्ते जलात्तुरसनं रसम् चैत्यं स्नेहम् द्रवम् स्वेदम् गात्रादिमृदुतामपि भूमेर्ग्राणेन्द्रियम् गन्धम् धैर्यम् धैर्यम् च गौरवम् त्वकसृङ्मांसमेदोऽस्ति मज्जाशुक्राणि दातवः अन्नम् पुंसाशितम् त्रेधा जायते जटराग्निना मलहास्थविष्टो बागः स्यात् मध्यमो मांसताम् मनःकनिष्ठो बागः स्यात् तस्मादन्नमयम् मनः अपां स्तविष्टो मूत्रम् स्यात् मध्यमो दुदिरम् भवेत् प्राणः कनिष्ठो बागः स्यात् तस्मात्प्राणो जलात्मकः तेजसो अस्ति स्तविष्टः स्यात् मज्जामध्यमसम्भवः कनिष्ठा वाङ्मथा तस्मात् तेजोऽपन्नात्मकम् जगत् लोगिताज्जायते मांसम् मेदो मांसमुद्भवम् मेधसोऽस्तीनि जायन्ते मज्जा च अस्ति समुद्भवा नाड्योऽपि मांसङ्गातात् शुक्रम् मज्जा समुद्भवम् वातपित्तकपाश्चत्र दातवः परिकीर्तिताः रसाञ्जलिजलम् ज्ञेयम् रसस्याञ्जलयो नव रक्तस्य अष्टो पुरीषस्य सप्तस्युः श्लेक्ष्मणश्च षट् पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः वसाया मेधसो द्वौ तु मज्जा त्वञ्जलिसंज्ञिता अर्धाञ्जलि तथा शुक्रम् तदेव बलमुच्यते अस्माम् शरीरे सङ्ख्या स्यात् शतत्रयं। शतत्रयम् जलजानि कपालानि रुचकास्तरणानि च नलकानीति तान्याहुः पञ्चदास्तीनिसूरयः द्वे स्वस्तिसन्धीनाम् स्याताम् तत्रदशोत्तरे। दशोत्तरे कौरवाप्रसरा स्कन्दसेचना स्युः लूकलाः समुद्गामण्डला इत्यष्टदा समुद्दिष्टाः शरीरेषु अवस्थितसन्दयः सार्धकोटित्रयम् सार्धकोटित्रयं श्म शुकेशा त्रिलक्षकाः देहस्वरूपमेवम् ते प्रोक्तम् दशरथात्मज यस्मादसारो नास्त्येव पदार्थो भुवनत्रये देहेऽस्मिन्नभिमानेन अभिमानेन महोपाय बुद्धयः अहङ्कारेण पापेन क्रियन्ते हन्त साम्प्रतम् तस्मादेतत्स्वरूपं तु विबोद्धव्यं मुमुक्षुभिः इति श्रीपद्मपुराणे शिवगीतासु उपनिष्त्सु ब्रह्म विद्यार्णयो नाम नवमोध्याय